अथान्योऽन्यम् विमुक्तास्त्रशस्त्रजालैर्भयङ्करैः युद्धमासीत्सुनासीरसुरारिबलयोर्महत् पत्तिः पत्तिमभीयाय रथी तुरंगस्थम् तुरंगस्थः दंतिस्थम् दंतिनिस्थितः युद्धाय धावताम् धीरम् वीराणामितरेतरम् वैतालिकाः कुलाधीशाः नामान्यलमुदाहरन् पठताम् वन्दिवृन्दानाम् प्रवीराविक्रमावलीम् क्षणम् विलम्ब्य चित्तानि ददुर्युद्धोत्सुकाः सङ्ग्रामानन्दवर्धिष्णौ विग्रहे पुलकाञ्चिते आसीत्कवचविच्छेदः वीराणाम् मिलताम् मिथः निर्दयं खड्गभिन्नेभ्यः कवचेभ्यः समुत्थितैः आसन् व्योमदिशस्तूलैः पलितैरिवपाण्डुराः खड्गारुधिरसंलिप्ताः चण्डाम् शुकरभासुराः इतस्ततोऽपि वीराणाम् विद्युताम् वैभवम् दधुः विसृजन्तो मुखैर्ज्वालाः भीमा इव भुजङ्गमाः विसृष्टाः सुभटैरुष्टैः व्योमव्यानशिरेशराः बाढम् वपूंषि निर्भिद्य धन्विनाम् निघ्नताम् इथः अशोणितमुखा भूमिम् प्राविशन् दूरमाशुगाः निर्भिद्य दन्तिनः पूर्वम् पातयामासुराशुगाः पेतुः प्रवरयोधानाम् प्रीतानामाहवोत्सवे ज्वलदग्निमुखैर्बाणैः नीरन्ध्रैरितरेतरम् उच्चैर्वैमानिका व्योम्नि कीर्णे दूरमपासरन् विभिन्नम् धन्विनाम् बाणैः व्यथार्तमिव विह्वलम् ररासविरसं व्योम श्येनप्रतिरवच्छलात् चापैराकर्णमाक विमुक्ता दूरा माशुगाह, अधावन दूरमाशु अधिरास्वादुरा इवैषिणा गृहीता पाई विकोशाः खड्गराजयः कान्तिजालच्छलादाजौ व्यहसन् सम्मदादिव खड्गा शोणितसन्दिग्धाः नृत्यन्तो वीरपाणिषु रजोघने रणेनते विद्युताम् वैभवम् दधुः कुन्ताश्चकाशिरे चण्डम् उल्लसंतो रणार्थिनाम् जिह्वाभोगायमस्येव लेलिहाना लेलिहानारणाङ्गणे प्रज्वलत्कान्तिचक्राणि चक्राणि वरचक्रिणाम् चण्डांशु मण्डलश्रीणि रणव्योमनिबभ्रमुः केचिद्धीरैः प्रणादैश्च वीराणामभ्युपेयुषाम् निपेतुः क्षोभतो वाहात् अपरे मुमुहुर्मदात् चेतनाविरहिताः बभूवुः इत्यर्थः कश्चिदभ्यागते वीरे जिघांसौ मुदमादधौ परावृत्यगते क्षुब्धे विशाव प्रिय बहुध्वा परभ्रम्य रोल अपिये अवृताे अभितोऽभ्यागतान् योद्धुम् वीरान् रणमदोद्धतान् प्रत्यनन्दम्भुजादण्डरोमोद्गमभृतो भटाः शस्त्रभिन्नेभकुम्भेभ्यः मौक्तिकानि च्युतान्यथः अध्याहवक्षेत्रमुक्तकीर्तिबीजाङ्कुरश्रियम् वीराणाम् विषमैर्घोषैः विद्रुता वारणारणे शास्यमाना अपित्रा भेजुर्धूताकुशा दिशा रणे बाणगण भ्रम्तो भिन्नि निम्जुर्मीलु महागजा अपारे सृक्सरीत्ूरे रथेषूच्चैस्तरेष्वपि रथिनोऽभिरिपुम् क्रुद्धाः हुङ्कृतैर्व्यसृजन् शरान् खड्गनिर्लूनमूर्धानः व्यापतन्तोऽपि वाजिनः प्रथमम् पातयामासुः असिना दारिता नरीन् वीराणाम् शस्त्रभिन्नानि शिरांसि निपतन्त्यपि अधावन् दन्तदष्टोष्ठ भीमान्यभिरिपुङ्क्रुधा शिरांसि वरयोधानाम् अर्धचन्द्रहृतान्यलम् आदधानाभृशम् पादैः श्येनाव्यानशिरेणभः क्रोधादभ्यापतद्दन्ति दन्तारूढाः पदातयः अश्वारोहा गजारोह प्राणान्प्रासैरपाहरन् शस्त्रच्छिन्नगजारोहाः विभ्रमन्त इतस्ततः युगान्तवातचलिताः शैला इव गजाबभुः मिलितेषु मिथो योद्धुम् दन्तिषु प्रसभम् भटाः अगृह्णन्युद्धमानाश्च शस्त्रैः प्राणान्परस्परम् रुषामिथो मिलदन्ति दन्तसङ्घर्षजो नलः योधान् शस्त्रहृतप्राणान् अदहत्सहसारिभिः आक्षिप्ता अपि दन्तीन्द्रैः कोपनैः पत्तयः परम् तदसूनहरन् खड्गघातै स्वस्य पुरःप्रभोः उत्क्षिप्यकिदूरा मुक्ता दिव प्राजी आत्म्या गतिर्वा विग्रह खैर्धवलधारा करान। तैर्भुवापि समम् विद्वान् सन्तोषम् न भटायययुः आक्षिप्याभिदिवम् नीताः पत्तयः करिभिः करैः दिव्याङ्गनाभिरादातुम् रक्ताभिर्द्रुतमीशिरे धन्विनस्तुरगारुढाः गजारोहान् शरैः प्रत्यैच्छन् मूर्चितान् भूयः योद्धुमाश्वसतश्चिरम् क्रुद्धस्य दन्तिनः जिघृक्षोरसिनाकरम् निर्भिद्यदन्तमुसलौ आरुरोह जिघृक्षया खड्गेन मूलतो हत्वा दन्तिनो दन्तिनोरदनद्वयम् प्रातिपक्ष्ये प्रविष्टोऽपि पदातिर्निरगादृतम् करेण करिणा वीरह सुगृहीतोऽपि पी कोऽपि न असिनासूञ्जहाराशु तस्यैव स्वयमक्षतः तुरङ्गी तुरगारुढम् प्रासेनहत्यवक्षसि पततस्तस्य नाज्ञासीत् प्रासघातम् स्वके हृदि द्विषाप्रासहृतप्राणः वाजिपृष्ठदृढासनः हस्तोद्धृतमहाप्रासः भुवि जीवन्निवाभ्रमत् तुरङ्गसादिनम् शस्त्रहृतप्राणम् गतम् भुवि अबद्धोऽपि महावाजी नसाश्रुनयनोत्यजत साश्रुनयनोत्यजत् भिन्नोऽपि रिपुणाश्वगः नामूर्च्छत् कोपतो हन्तुम् इयेष प्रपतन्नपि मिथः प्रासाहतौ वाचिच्युतौ भूमिगतौ रुषा शस्त्र्या युयुधतुः कौचित् केशाकेशुज भुजी रथिनो रथिबाण हृतप्राण दृढ़ासना क्षतकाधना स्राण इव मे नि न रथीरथिनम हरच्छस्त्रमूर्च्छितम् प्रत्याश्वसन् तमन्विच्छन् अतिष्ठद्युधि लोभतः अन्योऽन्यम् रथिनौ कौचित् गतप्राणौ दिवम् गतौ एकामप्सरसम् प्राप्य युयुधाते युयुधा वरा ते वरायुधौ मिथोऽर्धचन्द्रनिर्लूनमूर्धानौ रथिनौ रुचा खेचरौ भुवि नृत्यन्तौ स्वकबन्धावपश्यताम् रणाङ्गणे शोणितपङ्कपिच्छिले कथम् कथञ्चिन्ननृतुर्धृतायुधाः नदत्सु तूर्येषु परेतयोषिताम् गणेषु गायत्सु कबन्धराजयः इति सुररिपुवृत्ते युद्धे सुरासुरसैन्ययोः रुधिरसरिताम् मज्जद्दन्तिव्रजेषु तटेष्वलम् अरुणनयनः क्रोधाद्भीमभ्रमद्भ्रुकुटीमुखः सपदि ककुभामीशानभ्यागमत्सयुयुत्सया